रतो दृष्ट्वा जना राजन्नायान्तं पर्वतोपमम् सर्वे सिंहात् क्षुद्रमृगायथा आससादचमाद्रेयं पुलस्त्यं रावणो यथा अभिवाद्य ततो राजन् घटोत्कचः प्रह कृताजलिस्त किं क्यमी चाब्रवीत तम मे ऋशिखराकार पांडुनंदन संपरीशाभ्या मूर्ध्युपाघ्रा चा सकम प्रीतवाक्य मुच सहदेव देव उवाच गच्छ लङ्कां पुरीं वत्स करार्थं मम शासनात् तत्र दृष्ट्वा महात्मानं राक्षसेंद्रं विभीषणं रत्ननिराजसूयार्थं विविधानि बहूनि उपादायच उपादाय सर्वाणि प्रत्यागच्छ महाबला नो देवं वदेः पुत्रा समर्थमिदमुत्तरम् विष्णोर्भुजबलं वीक्ष्य राजसूयमथारभत् कौन्तेयोः भ्रातृभिः सार्धं सर्वं जानीहि साम्प्रतं स्वस्ति गमिष्यामि सर्वं वैश्रवणानुजा इत्युक्त्वा शीघ्रमागच्छयः वैशम्पायनुवाच पाण्डवेनैव मुक्तस्तो मुदा युक्तो तथेत्युक्त्वा महाराजा प्रतस्थे दक्षिणाम् दिशम् ययौ प्रदक्षिणम् कृत्वा सहदेवं घटोत्कचः ततः कच्छगतो धीमान् दूतम् अद्रवती सुतः प्रेषयाम स पौलस्त्याय महात्मने विभीषणाय धर्मात्मा प्रीतिपूर्वमरिन्दमः